ब्रह्म प्रत्यक्षम् पुरोस्य सम्भाराजो यस्या लोक्यम् सा माजस्य लोमा यजुरहृदयमुच्यते लो परिसधरणः यद्वादिवदिपश्चयजनम् प्रेक्षते यदभिमददि दीक्षामुपै दी दी दी दुदगया च त्यमः प्रणयति या एव ज्ञापणीयम् ते दा देवताः यत्तत्पर्णवाहरन्ति एवाग्नेः सौमीरः पशुर्मध्यरे स देवतः यदा ददाम् कल्पयन्ति स लोहनिर्भानाम् चे तत्कल्पयन्ति यदोपस्तृणन्ति बहिरेव तत् यदोपनिषदनवाहरन्ति स्वर्गमेव तेन लोकमवरुन्धे यत्कशिवोपर्षणवाहनम् दिवरिधय देवते यदाञ्जनाभ्यञ्जनवाहनम् त्याज्यमेवद यत्पुरापरिवेषात्खातवाहनम् दिगुरुडाशाहमेवदौ यदशनगदम्भयम् दिहविष्कृतमेव तद्धयन्ति ये देहयोजवाहारिनृत्यम् ते सव देवते ेवूर्पम् पवित्रम् तथाभिषवी राभाः सुग्दर्विवेक्षणवायवन्द्रोणकलशात् कुम्भो वायव्याहारी पात्रा वीरमेव कृष्णादिनाम् यजमानब्राह्मणम् वा ये तदीय गुरुदेव्याणि इदम् भूया इरामिति यदायति प्राणमेव तेन उपहरिदयति ते नासन् नानामतिथिरात्मम् जोहति सुजाहस्तेन प्राणे रूपे सुलेण वषत्कारेण एदेवे प्रियाश्चा प्रियाश्वजः स्वर्गम् लोकम् कर्मयन्ति यदतीथयः स एवम् विद्वान्नद्विषन्नश्नीन्नद्निषतोन्नमश्नीजान्नमे मांशतश्च नमेवांसमाहानस्य सर्ववादेश जग्धवाः मा यस्यान्न मश्नन्ति सर्वोवादेशो जग्धवायस्यान्नन्नाश्नन्ति सर्ववाणेष युक्तग्रावार्दव वित्रो वितरदाध्वर आहृदयज्ञग्रतोपहर प्राणामत्यो वा ये तस्य यज्ञो वितदतो यवोपहर प्रजापादैर्वादेश विक्रमाणानुविक्रमतेजवोपहर योजीधीनांसाह पद्यो यस्मिन् पदम् दिशदक्षिणाग्निः इष्टम् च वा जेषमूर्तम् च गृहाणाः वस्नादिजः पूर्वोदिधेरश्नादि वयश्च वा जेष्ठतम् च गृहाणाः वस्नादिजः पूर्वोदिधेरश्नादि ओर्जान्तजेष स्वादिम् च गृहाणाः वस्नातिलः पौर्वोदिथैरश्नादि प्रजा वाजेष पशूंश्च गृहाणाः वस्नातिलः पौर्वोतिथैरश्नाति कीर्तिम् च वाजेषयशश्च गृहाणाः वस्नातिलः पौर्वोदिथैरश्नादि शिरम् च वाजेष संविधम् च गृहाणा श्नादिनः पूर्वोदिधेरश्नादि एषवादिधेयक्षोग्रेजस्तस्मात् पूर्वो नाश्नीया अशिरावत्यदेशावश्मीया यज्ञस्य रात्मा यज्ञस्याविच्छेदायतद्व्रतम् एतत्सावस्वादीयदधिगमम् क्षीरम् वा माम् संवायदेव नाश्नीया स एवम् इन्वान् क्षीरमोपसिच्योः वहर यावदग्नि सोमेनेष्ट्वासु स वृद्धेनावरुन्धे तावधेन वरुन्धे स एवम् इन्वान् सद्भिरोपसिच्योहवहर यावदतिरात्रे धोपसिच्योपहरति यावत्सत्वसद्येष्वासु स वृद्धेनावरुन्धे तावदेनेनावरुन्धे स एवम् विद्वान् मांसमोपसिच्योपहरति यावद्वादशाहेणेष्टासु स वृद्धेनावरुन्धे तावदेनेना वरुन्धे स एवम् विद्वानो जगमोपसिक्षोपहरति प्रजानाम् प्रजर राजगच्छ प्रतिष्ठाम् प्रियः प्रजानाम् भवति ज एवम् विद्वानोदगमोपसिष्ठोपहर तस्माहिम् क्रेणोदि सिताप्रस्तौति बृहस्पतिरोर्जयोद्गारष्टापुष्टा प्रतिहरति विश्वे देवानिधरम् दे प्रजायाः पशूनाम् भवति जनेवम् वेद तस्मा उद्यम् सूर्यो हिम् क्रेणोति सङ्गः प्रस्तौति मध्यमेनोद्गायत्य प्रतिहरत्यस्तयम् निधनम् निधनम् भवत्याः प्रजायाः पशूनाम् भवति जनेवम् वेद तस्मा अभ्रो भवन् हिङ्क्रेणोति विद्योतमानप्रदेहति वर्षन्गायत्युर्गृह्णन्निधनम् निराम्भूत्या प्रजाया पशूनाम् भावय देवम् वेद अतिथिम् प्रदे पश्यति हिङ्क्रह्णोत्यभिवादति प्रस्तौ ति दुर्गायते उपहरति प्रदेहत्युच्छम् निधनम् भवत्या प्रजायात्मशूनाम् भवति च देवम् वेदा यच्छान्वयचाश्रावयत्येव तत् यत्प्रतिशृणोति प्रजा वयत्येव तत् यत्परिवेष्टा पात्रहस्तात् पूर्वे चापरे च प्रपद्यन्ते च मासाद्वर्यव एव रिमिश्च गृहारो बो दैत्यवृथमेव तदुपावैरि यत्सभागय दिलक्षेणा स भागय जगदरुतिष्ठदमुलवश्चत्येव दर समाहोव्याम् भक्षयत्युमाहोरस्तस्मिन् यत् पृथिव्याम् विश्वरोपाम् सौपरोऽन्तरिक्षे भक्षयत्युपरोदस्तस्मिञ्जदन्तरिक्षे विश्वरोम् सौपरो दिवि भक्षयत्युपोदक्षस्मिन् यद्दि विश्वम् सौभो देवेषु भक्षयत्युपरोदस्मिन् यद्देवेशो विश्वरो वाम् सौपो नो लोकेषु भक्षयत्युपरोदस्मिन् यल्लोकेषु विश्वरो वाम् उपहोदः आप्नोतिमम् लोकमाप्नोत्यमम् ज्योतिष्मतो लोकाञ्जायति यदेवम् वेद प्रजापतिश्च परमेष्टे च शङ्गेन्द्रिरोः अग्निर्ललाटम् चमप्रकारम् सोमो राजा मस्त्यष्कोद्योरुत्तरहनुः प्रेथव्यजह्वा मरुतो स्तङ्गा धर्मो वः विश्वम् वायः स्वर्गो लोकः कृष्णम् विधरणीवेश्य शेन क्रोडो ॐन्तरिक्षम् बाजस्या देवानाम् वत्ने पृष्टयः मित्रश्च ष्टांसमुत्ता दोषणी महादेवो बाहु इन्द्राणी वररायुः पुच्छम् पवमानो बालाः ब्रह्म च क्षत्रम् च श्रोणीबलपूरो दाता च विधाता च जीवन्तो जङ्गा गन्धर्वाप् शरथः कुष्ठीका अदितिः सभा चेतो हृदयज्ञकण्मेधामो कृत्व क्षीरा वैष्टात्माशदाः क्रोधो दुःखौ मन्युराण्डौ त्वजादेवाः त्रीवर्षस्य पदायस्तनाः क्रोधाः विश्वव्यधाश्चत्राणि रूपाम् देवजनाकुदा मनुष्याः त्राण्यत्रा उदरम् रक्षाम् ज्यो हेतविदनाभूवर्ध्यम् अभ्रम्बीभो वज्रानिधम् अग्निराशेरवृत्थितो इन्द्रप्राङ्गम् दक्षिणादिष्टम् जल प्रत्यङ्गम् धातोदङ्गष्ठम् सविता तृणानि प्राप्तः सो गो णावृत्तारन्दः विद्यमाहारो वैश्वदेवो युक्तः प्रजापातिर्निरुक्तः सर्वम् एतद् विश्वरूपम् सर्वरूपम् गोरूपम् उपैरम् विश्वरूपः सर्वरूपाः पशवस्तिष्ठन्ति एवम् वेदा श्रीर्भक्तिम् श्रीनिर्गामयम् कर्मगोलम् निरोहितम् सर्वं शीरण्यम् ते लोगम् बहिर्निर्मम् प्रयामहे कर्णाभ्यान्तोषेभ्यः कर्णशोलम् विसर्पकम् सर्वम् शीरङ्ग्यम् ते लोगम् बहिर्निर्मन्त्रयामहे यस्य हेतोः प्रच्यवते यक्ष्वः कर्णदास्य सर्वम् शीरण्यम् ते लोगम् बहिर्निर्मम् कृणोति प्रमोद बन्धम् कृणोति पोरोषम् सर्वम् शेन ते लोकम् बहिर्निर्मम् त्रयामहे अङ्गभेदम् गज्वरम् विश्वाङ्गम् निल्पकम् सर्वम् शेनम् ते लोकम् बहिर्निर्मम् त्रयामहे यस्य भीणः प्रतीराशमुद्वेपयति रथम् बहिर्निर्मन्दयामहे य गोत्य कवीरीये यक्ष्मन्तरन्तरङ्गेभ्यो बहिर्निर्मन्दयामहे यदि लामादवकामार्धृजाध्याय ते परि हृदो बलासमङ्गेभ्यो महिर् ोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे आशो बलासो भोत्रम् भवत्वामयद् यक्ष्माणाम् सर्वेषाम् भिषम् निरेवोज महान्वद बहिर्भिषम् निर्द्रैव दुर्गाः महन्त वोदराद यक्ष्माणाम् सर्वेषाम् भिषम् निरेवोज महान्वद पुदराह ते ओम् नो लक्ष्माणाम् सर्वेषाम् विषम् निरवोचमहम् तत् या सीमानम् निरोचन्ते भोर्धानम् प्रत्यर्शणीः अहिंसन्ति ो वर्षन्ती अहिंसन्ते रामरद्रवन्त बहिर्बिलम् यास्तिरष्टे वर्षन्त ऋणेर्पक्षणाः सुते अहिंसन्ते रामजारिद्रवन्तु बहिर्बिलम् यागुदाः सत्पन्न अजहिंसन्ति रामा यिद्रवन्तर्मिलम् या प्राज्ञो निर्भयन्ति निरोहम् निरोचयन्ति या अहिंसन्ति रामाय दिद्रावन्त बहिर्भिरम् एनम् रामरयन्ति लक्ष्मादोपणास्तव यक्ष्माणाम् सर्वेषाम् विषम् निररोचमान्त विसर्पस्य विद्रथस्य वादेवारस्य बालजेः यक्ष्माणाम् सर्वेषाम् विषम् निरवोचमहन्न पादाभ्याम् तेजानुभ्याम् श्रोणिभ्याम् वरिभंसः अनोगादर्शनीष्ट्यागमनीरथम् सन्देशेष्णस्वबाला सं। निषदायस्य नरो विदः उद्यन्नादित्यरश्मिश्रेष्णोरोगमने रजोऽङ्गभेदमाशीषमः अस्य वामस्य पलितस्य हो नस्तस्य भ्राता मध्यमोऽस्त्यश्नाः तृतीयोभ्राता घृतपृष्टो अस्यावश्यम् निष्पदिम् सप्तपुत्रम् सप्तयुञ्जन्ति रथमेकचक्रवेकोऽश्मोहति सप्त नाम चक्रमजराश्वाभुवराधीतस्तु इमस्थः सप्तचक्रम् सप्तवहन्त स्वाहा सप्त स्वसाहारो अभिसन्नवन्त यत्रगवान् निहीता सप्त नाम कोनम् जायमानवस्थम् वन्तस्था विभर्ति ओम् यासुरधेता ोमेतत् इह ब्रवेदयै मङ्गवेदास्य वामस्य निहितम् पदम् वेः श्रीकृष्णक्षीरम् न कृते गावोऽस्य व्रिम्वदाना उदरकम् पदा भोः पाक पृच्छामि मनया वेजारम् देवा रामेणानिहिता पदानि वत्स्य मष्कयेधि सप्तन्तोन्मितरत्रिरेकायित्वाश्चेन्द्रश्चिरत्र कविम् गच्छामि विद्वनो न विद्वान् विजस्तम्भरिमारजांसजस्य रूपे किमपि स्विरेकम् मातापितरमृदाबाजधीच्चे मनसा सम् हिजग्मे ीः भत्सुर्गर्वमस्वन्त इदोपवाकवीयो युक्ता माता सेद्धिरि दक्षिणाजा अतिष्ठो जनेष्वन्तः अमी मे वत्सोऽनुगामपश्च्यम् कृषयोजनेषु तिस्रो माले त्रित्रेम् निभ्रजगर्मोद्वस्तौले मम क्लावयन्त मन्त्रयन्ते दिवो अमुष्ये पृष्ठे विश्वविदो तव विश्वविन्नाे चक्रे परिवर्तमाने यस्मिन्ना तस्त दुर्मा विश्वा तस्य नाक्षस्तप्यते भूरि भारः सनादेव रच्छिद्यते सनाभिः पञ्च बादम् पितरम् बादम् दिवाहुः परे अर्धे पुलेशिणम् ुपारे वि च क्षरणे सप्तचक्रे षटराहुद्वादशारम् महितजरायर्तिचक्रम् परिद्यामृतस्य आपुत्रा मिथुरासो अत्र सप्तशतारे विंशतिश्च तस्तुः क्षणे विचक्रभजनम् विवाहावृत उत्थानायाम् दश चुक्वहन्ति सूर्यस्य चक्षोदरैत्यास्मिन्ना तस्तुर्भवनानि स्मा स्त्रियः स दे स्थांसा भुप्पश्च करिण्यपुत्रस्य हिमायैतनस्तावे जानात् स पितुष्पिता सत् सा क्जानाम् सप्तधमाहुरेकुश्यमा तेषाः मिष्टानि वेदानि धामजस्था अवः परेण हरेणावरेण पदावत्संविभ्राजेणोरुदस्तात् सा ग्रीरेणितरथम् मरः सोदे अभियोधे अस्मिन् अवः परेण वितरञ यो अस्य वेदावः परेण परदेणावरेण ेवम् मनः कुतोधिप्रजातम् ये अर्वाञ्चस्ताम् उपराजाहो हे पराञ्चस्ताङ्गो अर्वाच आहो इन्द्रश्च या चक्रतुस्वमधारेधुराजयुक्तार च सो वहन्ति वासोपन्नासयुजा सखायासमानम् वृक्षम्बरेश स्व तयोरन्यपि परम् स्वात्मवि यस्मिन् वृक्षे मधरः विशन्ते सुभाधिविश्वे तस्य यथापरम् स्वात्मग्रेतम् माम्र सत्यप्यतरन्न वेद यत्रा सुवर्णामृतस्य भक्षमनिमेषम् विदधाभिस्वरन्ति विश्वस्य गोपाः समाधेयः पाकमत्रामीवेश यद्गायत्रे अधीगायत्रमाहीतम् त्रै श्लोभम् वा नै श्लोभान्निरदक्षता यद्वाजगत्यगत्याहीतम् परयेत्तद्विदस्ते अमृतत्वमानजो गायत्रेण प्रतिविमीले अर्कमर्केण य सामत्रै श्लोभेन भागाम् कंपा चतस्पदा क्षेण विपदे सत्तवाणी जगरता सिंधु दिव्यस्कृंधरे सूर्य पर्यपश्यत गायत्र शिस्सा हुआ प्ररीज महीपये सुदुघा धेलुदाशुभस्तो गोधु कुदेना र्मस्तदो प्रवोचत् हिङ्कृतेव सुमर्त्नीवसो नाम् वत्समिच्छन्ती वरसाभ्यागात् दुहामष्टिभ्याम् वयो अग्नेयं अग्नेयम् सावर्धताम् महज सौभागाय गौरवेदभिवत्सम् विषन्तम् मोर्दानं हिङ्कृणो शृग्वाणम् धर्ममभिवापयदेपयो वयम् शशिङ्गे जय न गौरभिवेदाविवादिमानम् दशनावधिश्रता सा जित्तिः जकारमत्यान् विद्युद्भवन् ते प्रदे मौरिमोहता अनक्षय दुरगादेवमेतद्ध्रुवम् मध्यापस्त्या जीवोऽमृतस्य जलति स्वधामध्ये नाशयोः विदन्तग्राणम् स लिलस्य पृष्ठम् सन्तम् पतितोदकार देवस्य पश्य काव्यम् महित्वाद्यामारसमाहारेतसो अस्य मेन्द समातुर्यो न परिवेशो अन्तर्वाहु प्रजाजन निराविवेश अपश्चरन्तम् सर्देशे सविषो जयल्पसानावरेवन्तः देवर्नः पिता जता नाभिरत्र बन्धुन्नो माता पृथिवी महीया उत्तानयोस्तम्बो पितादोहितर्गर्भय पृच्छामि त्वापरमण्डलम् पृथिव्याः पृच्छामि विष्णो अश्वस्य रेताः पृच्छामि विश्वस्य भवानस्य नाभिम् पृच्छामि वाचः परमम् यो इयम् वेदिष् परो अन्तः पृथिव्या इवम् सोमो विष्णो अश्वस्य अय्यज्ञा विश्वस्य भुवरस्य नाभ्रह्मायम् मातः परमम् यो न विना वेदमस्मिरण्यः सन्नद्धो मनसा जरामि निरागम् प्रदमाजारतस्य अपाङ् मत्योमत्येनाशयो हरिः स्वन्ता विशोजीरायन्तान्यान्न निजत्युरन्याम् सप्तार्धगर्भाभुवनः सरेतो विष्णो तिष्ठन्ति प्रतिशा विधर्मणि ते धीरिर्मरसा पश्चिदपरिभुवः परे भवन्ति विश्वदाः द्विजोऽक्षरेस्मिन्नैवाधिस्मे यस्तन्न वेद किमजाकरिष्यति चेत् तद्विदस्ते अवीनमासते पदम् मात्रया कल्पयम् दोर्धत्येन जागृर्विश्वमेज कृपाद् ब्रह्म पुरलोमम् वितश्चेतेन जीवम् प्रजश्चरस्रः सूर्यवताद्भगवती भूयाधा वयम् भगवन्तः स्यावा अद्धित्रिणमग्ने विश्वदारेण शुद्धमोदकमाचरन्ति गौरीन्मे मायधीला निरक्षत्र्यकर्मदेपदेशा चतुरस्पदी राष्ट्रावादे बोषि सहस्राच्चभुवनस्य पङ्गस्तस्याः समुद्राधिवीक्षान्ति कृष्णन्नियाम् राजस्तु वर्णा अपोसाहारादिवत्पादन्ति ृतस्यादिघेन अवादे प्रथपद्वती वरुणाचीकेरा गर्भो भारम्भरत्याजी तस्यातम् विभर्त्यम् निवाहादि विराटर्वाग् विराट् पृथिवी विराटन्तरिक्षम् विराट् प्रजापदे त्य स्वाध्यानामधिराजो बभूवतस्य भूतम् भव्यम् वशेषम् भव्यम् वशे कृणोतु सकर्णम् धूममाहारादय पश्यम् यषुवदाफरेणावारेण उक्षाणम् वृष्टेमवचन्दवीरास्तानि सम्मान प्रथमान्यायस्के शिरे तथा विचक्षते तम् वत्सरे वा बले कारेण ष्टे वृद्धादिरेकश्च दर्शेन चत्वारि वाक् परिमितापदािताने विदुर्ब्राह्मणा ये माषिणाः गुहात्रीणि निहितानेङ्ग्रयन्ति धुरीयम् वाचो मानुष्याः पशन्ति इन्द्रम् मित्रम् वरुणमग्निमाहुरतो दिव्यः सोपर्णो गरुत्मा एकम् सन्धिप्रापबुधातरि नवमम् काण्डम् समाप्तम् अथ दशमम् काण्डम् ओ कल्पयन्ति भवतो वधूमेव विश्वपामस्तकृताञ्चिकित्सवः साराधेत्वप अनुदामयेना शीर्षण्मती नृस्पतिः कर्ण्यत्याकृता सम्भृता विश्वभा साराधे त्वप अनुदामयेना शोद्यकृता राजाकृतास्थीर्णता परिष्कृता जायावत्याः वृत्तेव कर्तारम्भम् पृच्छतु अनराषध्या सर्व त्यादो दोषम् याम् क्षेत्रे चक्रुजाङ्गोषिणाम् वादे पुरुषेषु अधमस्पशकृते शपथः शपधीयते प्रत्यक्प्रजन्महिन्मो यथा गत्यागतम् हरते प्रतीतेन आङ्ग्यरोऽध्यक्षो नः पुरोहितः प्रतीतेः कृत्या आकृत्या मोम् गत्यागतो यस्तोवाच परेहीति प्रतिकोरमुदायम् तङ्गृत्येभे मत्तः समास्मारिच्छो नागसाः यस्ते परोदस्य मद्वर्ध्या तम् गच्छ तत्र जय न येत्वा तत्सेरञ्जनाः जेत्वा कारेभिरेचारिण त्यादोष भक्तपूर्णस्थलम् तेन त्वास्तभयावदे यद्दुर्भगाम् नष्टम् मृदवत्सामुपे निवा अवैष् सर्वम् मत्पापम् द्रवीणम् मोपतिष्ठतो यद्दे नित्येवा राम जगृहो सन्देश्या सर्वस्मात् पापादिमाम् देवी सात्विक्रियान्नामग्राहात् सन्न स्यादभिनिष्क्रेतात् मञ्चम् दृत्वा विेण ब्रह्मरिणा यथा वादश्चावयति भूम्या रेणुमन्तरिक्षाच्चाभ्राम् एवावत्सर्वम् दुर्भोतम् ब्रह्मनुत्तरमपायति अवक्रामः नार्दी निरर्भागर्देव गर्द कर्त्रेर्न्नक्षस्वेतोभक्ता ब्रह्मणा वीर्या वरा अयम् बन्धा कृत्ये चित्ता नयामाभिप्रहीताम् प्रदित्वा प्रहङ्गः तेनाभियाधिवम् चन्तनस्वदेव वाहिनी विश्वरो बाकुरूपिणी े अनुवागण्यत्रात्मदजानागणस्व परेणेहिनवतिम् नाव्या अतिदुर्गा श्रोत्यावाक्षरिष्ठा परेहि पादयवृक्षान्निवेणिः पादयवानामस्त्वम् पुरोषमुच्छीघरेण कर्त्रेन् निवृत्येतस्तृत्येतया स्वाय बोधया यान्दे परिगजया विश्वजाले क्षेत्रे कृत्याम्बरकम् वा निः अग्नौ वा त्वागालवत्यभिचेदः पाकम् सन्तम् धीरदानागसम् कुमारदैवनोबद्धम् निखातम् वैरम् सार्यम् व विलामकम् तदे दूराहृतम् दत्तारिपरिवर्तनाम् हन्तो कृत्यागतः प्रजा स्वायताशयः सन्दिरो गृहे विद्म ते कृत्ये निधापरोहंसि उत्तिष्ठैव वरे गीतोज्ञादेहेच्छसि ग्रीवास्ते कृत्ये पादौ चापि कस्याभिनन्द्र इन्द्रादी अस्मान् रक्षताम् यो प्रजानाम् प्रजावती सोऽ राजाधिपावृणिता च भूतस्य नःपदयो वृणयन्तो भवा शर्वा वस्यताम् बापकृते नृत्याकृतेः दुष्कृते विद्युतम् देवहेतिम् यद्ये यतधिपदी चतुष्पदी नृत्याकृताम्भृता विश्वरो वा पुनः परेभिरुक्षुरे अभ्या आत्तास्परम् कृता सर्वम् भरन्धे दुहितम् परेः नृत्ये कर्तारम् दुहितेवम् परे नृत्ये मातिष्ठो विध्वस्येव वरन्ना मृगः समेगयुक्तम् नत्वा विकर्तुमर्हति उदहम् दिवोर्वाधिनम् प्रत्यादायपारष्वा उत पूर्वस्य निग्रयो निहम् च पारः प्रति एतद्दिषुमेव चोधे हीराये यथा यस्वाह चकारम् प्रति अनादो हद्यामेवारै इत्येवनो गामश्वम् पुरोषम्वधि यत्रा, यत्रा भवा जाले यशिता तस्त्रशिपन्नाथ मारे दाभि सर्वा संलप्येतः कृत्या पुनः कर्त प्रमी वृद्धियामो ृच्यञ्जः केतोम् दुर्भूतम् गर्द्रम् गत्यागता कृतम् हस्ते वरजो जा केन पार्श्वे आरोषश्च केन मांसम् सम्भृतम् केन गुल्भा प्रेचने के केन के कारिकेण शङ्कौ मध्यतक्रप्रतिष्ठा कस्मान्नुकण्ठावधरावगणम् नष्ठीवन्ता उत्तरस्य जङ्गे निर्विन्यः कस्मिद् जानुनः सन्धि तच्चैकेता चतुष्टयम् युज्यते सन्हीतान्तम् जानुभ्या मोहत्तमशीथिरम् कबन्धम् श्रोणीय दोरोधम् सुदृढम् बभूव कतिदेवा कतमेता सन्न्यगुरोः ग्रीवाश्चित्युः पूर्वस्य कतिस्तनो व्योडौ गतिस्कन्धाम् गीवृष्टिराजिम्मन् कोऽहस्य बाहु समभेयम् गरवादिने अंसोको हस्य तद्देन पुनधौ कारिषणि विमो नासिके च क्षणि मुखम् येषा हम् पुरुत्रा वेदयस्य ब्रह्मस्पादौ दिवचोयन्ति रामम् हङ्गो हृक्पामदधात्पुरोधाः महीमधी शिष्यायवाचम् स्वभाव मस्त्यष्कमस्त्ययतमोलकाटम् काटेदाम् रथमोलः कपालम् छित्त्वा नित्यम् गन्वा पूरुढस्तदिवम् रुरोहकतमस्तदेवः प्रिया प्रिया रे बहुला स्वप्नम् संवाद कन्द्रियाः आनन्दानुन्द्रोनन्दाश्च कस्माग्रूढः राज्यमृद्धिः पुताः कोऽस्मिन् लाभो धार्मिशो वृतः पुरोगतस्मिन्धुसत्याय जाताः ते रास्तां मधुं रातो पुरोषे तिरष्टेः कोऽस्मिन् रित्राधिपोरूढे कोऽस्मिन् प्राणवावयत् को हालम् व्यानो समानमस्मिन् को देवोदिशिश्रावेवोरूढे कोऽस्मिन् यज्ञम दधादे को देवोऽधिपोरोढे कोऽस्मिन् सत्यम् को वृतम् कुतो वृत्तः कुतो वृतम् कोऽस्मैवासपर्य दधात् को अस्यायोरकल्पयत् बलम् को अस्मै प्रारच्छको अस्याकल्पयजलम् केनाको अन्वयतरुतये करोद्धृते वृषसङ्केनान्वयेन्दरेणम्भवम् ददे कोऽस्मिन् वेतोऽन्यदधात्रुरादाह यतामिति मेधाम् को अस्मिन्नजौ हको भाङ्को नृतो दधौ केनवाम्भो केनाभिमन्ना पर्वतान् केन कर्माणि निरुढा केन पद्यन्यमन्मेति केन सोमम् विचक्षरणम् येन यज्ञम् श्रद्धाञ्च केनास्मिन् निहितम् मनः केन श्रोत्रियमाप्नोति केनैवम् वारवेष्ठिरम् केनैव भज्ञम् वोरूढ केन संवत्सरम् ब्रह्म श्रोत्रीयमाप्नोति ब्रह्मे वम्मारनेिरम् ब्रह्मम् बोरोषो ब्रह्म संवत्सरम् मे केन देवाम् अनुक्षि केन नैव देर्पि सः केनेदमन्यम् नक्षत्रम् केन न क्षत्रमुच्यते ब्रह्मदेवाम् अनुक्षियते ब्रह्मेजमन्यम् नक्षत्रम् ब्रह्म नक्षत्रमुच्यते केनेजम्भोनिर्विहिता केनद्यौरुत्तराहिता केनर्ध्वम् तर्यच्छान्तरिक्षम्यतोहितम् ब्रह्मणा भोनिविहिता ब्रह्मद्यौरुत्तराहिता ब्रह्मेणोर्ध्वम् तर्यच्छान्तरिक्षम्यतोहितम् स्य संसेव्या धर्वाचारञ्च मस्तिष्काः प्रैर यत्पवमानोऽधीशीर्षयः तद्वाधर्मणशिरोहेव रोधः समुप्यः तद्वाणाभिरक्षिरोहन्नमथोमनः मोर्ध्वो नुषष्टास्तिर्यन्नुसृष्टा सर्वादयः पुरोण ब्रह्मणो वेदयस्य पुरुष उच्यते यो वेदाम् ब्रह्मणो वेदामृतेनामृताम् पुरम् तस्मै ब्रह्म च ब्राह्माष्टचक्षु प्राणम् व्रजाम् दुः न वेदम् चक्षुर्जः तिनः प्राणो जगतः पुरा पुरञ्जो ब्रह्मणो वेदयस्य पुरुष उच्यते अष्टाचक्रा नवद्वारा देवानाम् पूर्णयोध्या तस्याम् हिरण्ययः कोशः स्वर्गो ज्योतिषा विरुदः तस्मिन् हिरण्ययकोषेऽप्यरेत्रिप्रतिष्ठिते तस्मिन् यद्यक्षमाहात्मन्वर्तने ब्रह्मविदोहाविदोह प्रभ्राजामानाम् हरिणेभ्यसा संवैः वृता ब्रह्ण्यं ब्रह्माय